नमस्कारः नमो नमः राधा भगिनी प्रार्थनया आरम्भम् करोति वा नमोऽस्तु ते व्यासविशालबुद्धे फुल्लारविन्दायतपत्रनेत्र येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयप्रदीपः सर्वोपनिषदो गावो दोग्धा गोपालनन्दनः पार्थो वत्सत् सुतिर्भोक्ता तु गीतामृतम् महत् शान्ताकारम् बुजगशयनम् पद्मनाभम् सुरेशम् विश्वाधारम् गगनसदृशम् मेघवर्णम् शुभाङ्गम् लक्ष्मीकान्तम् कमलनयनम् योगिभिर्ध्यानगम्यम् वन्दे विष्णुम् भवभयहरम् धन्यवादः भगिनी धन्यवादः अद्यदिने वयं किं कुर्मः प्रथमतः तु अभ्यासः अस्ति तत्र गीताप्रवेशे पुस्तके यत् अभ्यासम् अस्ति तत् गीतासोपानं प्रथमः भावः ततः अभ्यासः अभ्यासः इति विभागः तत्र अस्ति तत् वयं कुर्मः अनन्तरम् एकस्य श्लोकस्य पठनं श्लोकम् आधारीकृत्य कथायाः वाचनम् एवं सर्वं वयम् अद्यदिने कुर्मः षष्टिविभक्तिविषये mm. वयं गतपक्षे गतसप्ताहे तु वर्गं न अभवत् परन्तु तत्र गतपक्षे षष्ठिविभक्तिविषये वयं पठनं कृतवन्तः सर्वे स्मरन्ति वा षष्ठिविभक्तिविषये आदौ किमस्ति तत् पश्यामः दृश्यते वा दृश्यते आं दृश्यते भगिनी तत्र वयम् अहं मन्ये विंशतिपृष्ठतः वयं कृतवन्तः पश्यामः एकवारं शक्तिविभक्तिः तत्र हा तस्य तस्य चलास श्रद्धा ततः आरभ्य वयं कुर्मः चतुर्विंशति चतुर्विंशति पृष्ठक्रमाङ्कचतुर्विंशति ततः आरभ्य एकवारं तत्र इकारान्तमतीशब्द उकारान्ततनुशब्द ऊकारान्तचमू इति शब्द माता रुकारान्तशब्द तस्य विषये एकं तालिका पत्र भारत महोदय भावी वा भगि मचन षष्टि विभक्ति मत दिवचन मतो बहुवचनाती तनु एकवन ष्टि विभक्ति तथवा तनो दिवचन तनवो बहुवचन तनूना चमू चमूवचन षि विभक्ति चम्वावो तंव, तमो बहुवचन चमूनां माता षष्ठीविभक्ति त्रिवचन् मातुः द्विवचनं मात्रोः बहुवचनां मातॄणां अत्र मतिः इति स्त्रीलिङ्गिशब्दस्त्रीतिलिङ्गि इकारान्त मतिः इत्युक्ते मतिः इत्युक्ते किं भवान् जानाति वा आ, सत्यं तनुः इत्युक्ते तत् शरीरं शरीरम् इति तनु इति अनन्तरं चमूः इत्युक्ते तत्र ग्रूप् आफ् सोल्जर्स् इति चमू युद्धप्रसङ्गे तत्र चमूः इति अस्ति तत्र चमूः ग्रूप् आफ् सोल्जर्स् माता इत्युक्ते जननी अम्बा मदर् इति अस्तु एतत् सर्वं मतिः इकारान्त उकारान्त ऊकारान्त माता शब्दानां कृते एकवचन द्विवचन बहुवचन षष्ठे पद्भ विभक्तिरूपाणि अधुना तत्र एकं सम्भाषणमस्ति कथं तत् एतस्य नाम विष्णु ततोपि भारतमहोदय भवानेव पठति वा, वा? एतस्य नाम विष्णु एकस्य नाम विष्णुः तस्याः नाम लक्ष्मीः एतस्य नाम महाभारतम् अत्र हा पर्याप्तम् अत्र विषयः अस्ति सर्वनामशब्दा सर्वनामशब्दा इत्युक्ते तत्र एतद् यत् शब्दं तत् एतत् शब्दस्य कृते पुल्लिङ्गि सिल्लिङ्गि एक षि विभक्तिम विषुंगत लक्ष्मी तत्लिंगी अश्यो तीन दुराविक वास्तविक पशा तत्ईंतिंगी अस्ट नदी एव चलती पर विसर्ग अस्ट कि भिन्न प्रकार नदी नदी mm -hmm. एकम लक्ष अस्त नदी नदी नी नदी एव अस्त पर ईकारातिंगी चेत अभी तिन्न प्रकार लक्ष्मी विसर्ग अस्त महाभारत एक नाम महाभारत अधुना तक संभाषणमस्त माता पुत्र अति महाभारतप्रदर्शिनी महाभारतप्रदर्शिनी इत्युक्ते तत्र चित्राणि सन्ति वस्तूनि सन्ति महाभारतविषयकः काचित् महाभारतप्रदर्शिनी माता तां दर्शयन्ति पुत्रं विवृणोति हा इत्युक्ते माता तत्र माता पुत्रेण सह तत्र गच्छति अत्र पश्य पुत्रेण सह माता अस्ति तत्र माता पुत्रं दर्शयति किमस्ति एतत् कस्य चित्रम् एतत् एतस्य नाम किम् एवं सर्वं दर्शयन्ति विवृणोति विवरणं करोति स्पष्टीकरणमपि ददाति कं ददाति पुत्रं ददाति कां दर्शयन्ति ताम इत्युक्ते पुत्रं तत् तां दर्शयति ताम् इत्युक्ते क्षम्यतां ता ताम् इत्युक्ते प्र प्रदर्शिनीं दर्शयन्ति कं विवृणोति पुत्रं विवृणोति प्रदर्शिनीं दर्शयन्ति माता पुत्रं चित्रस्य विषये विवरणं ददाति स्पष्टीकरणं ददाति एव <laughs> अधुना माता माता बगे जयन्ती भगिनी पुत्रः अगस्टमहोदयः पठतु एतत् सम्भाषणं एतत् सम्भाषणम् उच्चैः प्रकट काश्चित् महाभारतप्रदर्शिनी माता तां दर्शयन्ती पुत्रम् विरुणोति माता एषा महाभारतप्रदर्शिनी एतस्य एतस्याः दर्शनी दर्शनेन महाभारतं सम्यक् अवगन्तुं शक्यते एतस्य नाम धृतराष्ट्रः एतस्याः नाम किम् एतस्याः नाम गान्धारी एतयोः पुत्राः एव कौरवाः एतेषाम् एतेषां पाण्डवानां च कः सम्बन्धः पाण्डवाः एतेषाम् दायादाः तेषाम् एतेषां मध्ये किं प्रवृ प्रवृत्तम् महत् युद्धं प्रवृतं तथैव महाभारतयुद्धं तत्र कृष्णः पाण्डवपक्षे आसीत् कृष्णः मम प्रियः देवः सः किम् आं मम अपि प्रियम् अग्रिमे किमस्ति mm. अस्माकं देशे कृष्णः सर्वेषां प्रियः एव अहं तस्य भक्ता रक्षकः भो hmm. कृपया जनैः वदतु युवयोः भाषणेन अन्येषाम् भिग्नः भवि भवेत् तथैव भवतु वत्स आवयोः विलम्बः जातः जल... चलतु गच्छाव सम्यक् उत्तमम् धन्यवादः धन्यवादः एषा महाभारतप्रदर्शिनी एषा स्त्रीलिङ्गि अतः तत्र षष्ठीस्त्रीलिङ्गिरूपं षष्ठीस्त्रीलिङ्गि एकवचनान्तरूपम् एतस्याः तस्याः एतस्याः प्रदर्शिन्याः दर्शनेन प्रदर्शिन्याः दर्शनेन तत्र सर्वनामस्य योजनेन किं भवति एतस्याः तस्य सर्वनाम शब्द एतस्याः षष्ठिरूपं दर्शनेन महाभारतं सम्यक् अवगन्तुं शक्यते इदानीं पुत्रः पृच्छति षष्टि विभक्ति एतस्य नाम किं माता वदति एतस्य नाम धृतराष्ट्र पुनः एकवारं पुत्रः पृच्छति गान्धारी तत्र गान्धारी गांधारी, चि चे गाधारी भगिनी गाधारी गांधारी मता दृश्य अतः एक नाम किी शीप नाम गाधारी अधुना माता देत पुत्र कौरवा एक अतः विभक्ति का ष्टी द्विवन एक धुतराश्र गाधारी गाधारी माता धृतराश्रिता पुत्र कौरवा एक कौरवा अंडवा कह संबंध पुत्र षी विभक्ति बहुवचनमेशी विभक्ति पुंगी रुश्यते रुश्यते देन्सुन। रुश्यते देन्सुन। हा, हा. ए नाम दृश्य है वृश्यम गाधारी एकत्र कौरव तोर तुंगी एक तोरिंगी द्विवन तुंगी बहुवचनम तस्य तयोहो तेषाम् एतस्य एतयोहो एतेषाम् एतयोः एतेषाम् एतस्य एत एतेषां पाण्डवानां च कः सम्बन्ध इत्युक्ते पुत्रः किं पृच्छति कौरवाणाम् पांडवानाम्, कः सम्बन्ध कौरवाः सन्ति कौरवाः आसन् पाण्डवाः आसन् द्वयोः मध्ये कः सम्बन्धः अधुना माता वदति पाण्डवाः एतेषाम् एतेषाम् इत्युक्ते कौरवाणां पाण्डवाः कौरवाणां इत्युक्ते सम्यक् इत्युक्ते हाँ महाराजापंडु मा, महाराज धृतराष्ट्र बंधु एवं धृतराश्र से बंधु कनिष्ठबंधु पंडु महाराज पंडु अत पांडवा कौरवाण दायादा एक मध्य किं प्रवृत्तम अधुना पश्युन एक ष्टी रूप तथैव एतेषाम् तेषाम् एतेषाम् तेषां मध्ये किं प्रवृत्तम् महत्युद्धम् प्रवृत्तम् महत् युद्धम् महत्युद्धं प्रवृत्तम् तत् एव महाभारतयुद्धम् तत् एव महाभारतयुद्धम् तत्र कृष्णः पाण्डवपक्षे आसीत् एतत् सर्वं वयं जानीमः कृष्णः मम प्रियः देव सः तव अपि प्रियः किम् इति कुत्र पृच्छति माता वदति अस्माकं देशे अत्र षष्ठी कुत्र दृश्यते अस्माकं देशे कृष्ण अस्माकम् इतोपि कुत्र दृश्यते सर्वेषां सम्यक् सर्वेषाम् अस्माकं देशे हा तत्र कथमस्ति मम अस्मत् शब्दस्य मम मम एकवचन अस्माकं बहुवचन द्विवचनान्तरूपम् अस्ति आवयोः मम आवयोः अस्माकं मम आवयोः अस्माकम् एतत् अस्मत् शब्दस्य अस्मत् शब्दः पुल्लिङ्गे सीलिङ्गि नपुसकलिङ्गे भिन्नप्रकारेण प्रचलति वा त्रिलिङ्गकः त्रिषु लिङ्गेषु समानः एव अस्ति हा यतो हि तत् अस्माकम् अस्मत् युष्माकम् युष्मत् तत् अस्मत् युष्मत् शब्दद्वयं तत्र त्रिषु लिङ्गेषु समान एव अतः अस्माकं देशे कृष्णः सर्वेषां प्रियः एव अहं तस्य भक्ता अत साक्ता भक, वदेलिंगे भक्तिंगे अहम तस्ता अधुना तुत्र मा, मध्य संवाद प्रचल प्रचलनस्त रक्षक तग्छति भो भोकते संबोधन पदम भो कृपया शनै वद मेक्नोइस् इति युवयोः सम्भाषणेन अन्येषां विघ्नः भवेत् अत्र षष्ठी कुत्र दृश्यते युवयोः युवयोः इतोपि अन्येषाम् अन्येषाम् अन्येषां तत् अन्येषामपि किमस्ति बहुवचनान्तरूप युवयोः इत्युक्ते कयो कयोः माता पुत्र द्वयोः सम्भाषणेन अन्येषां विघ्नः भवेत् यु आर् डिस्टर्बिङ्ग् अदर्स् इति सः वदति अधुना माता वदति तथैव भवतु वत्स आवयोः विलम्बः जातः आवयोः आवयोः कथम् आवयोः अस्माकमिति बहुवचनान्तरूपम् मम इति एकवचनान्तरूपम् आवयोः इति द्विवचनान्तरूपं मम आवयोः अस्माकं तव युवयोः युष्माकम् एतादृशीनि रूपाणि सन्ति आवयोः विलम्बः जातः चलतु गच्छाव गच्छाव गच्छाव अपि द्विवचनान्तं गच्छामि गच्छाव गच्छाम तत् गच्छाव चलतु इति आवयोः विलम्बः जातह, वि आर् गेटिङ्ग् लेट् इति उक्त्वा चलतु ओके okay? सो so, तत्र आवयोः युवयोः तस्य तयोः तेषां तस्याः तयोः तासाम् अत्र अधोभागे स्थालिका अपि अस्ति एकवारं पठामः राधा भगिनी भवती पठति वालिका पठ अवधेयम् एतद् पुल्लिङ्गे नपुंसकलिङ्गे च एकवचनम् एतस्य द्विवचनम् एतयोः बहुवचनम् एतेषाम् एतत् शब्द स्त्रीलिङ्गे एकवचनम् एतस्याः द्विवचनम् एतयोः बहुवचनम् एतासाम् तत् शब्द पुल्लिङ्गे नपुंसङ्ग नपुंसकलिङ्गे च एकवचनं तस्य द्विवचनं तयोः बहुवचनं तेषां तत् शब्दस्त्रीलिङ्गे एकवचनं तस्याः द्विवचनं तयोः बहुवचनं तासाम् अस्मत् शब्द त्रिषु एकवचनं मम त्रिवचनम् आवयोः बहुवचनम् अस्माकम् युष्मत् शब्दत्रिषु लिङ्गेषु एकवचनं तव द्विवचनं युवयोः बहुवचनं युष्माकम् एतत् सर्वं स्थालिकां दृष्ट्वा वयम् अवगन्तुं शक्नुमः अभ्यासः बैस अस्ति अभ्यासं कुर्मः अत्र धन्यवादः राधा भगिनी धन्यवाद धन्यवादः विना भगिनी भवती करोति वा अभ्यासः अस्तु भगिनी हा वद आवरणे विद्यमानयोः शब्दयोः सहायेन वाक्यानि रचयत् उदाहरणं वसुदेवः देवकी पति पत्नी स्य पत्नी देवकी देवक्याः पतिः वासुदेवः अत्र भगिनी वसुदेव इति अस्ति वासुदेव इत्युक्ते वासुदेव इत्युक्ते श्रीकृष्णेव न क्षम्यतां मासु तत्र कथमस्ति वसुदेव वासुदेव तद्धित् प्रत्ययस्य योजनेन वसुदेवस्य पुत्र वासुदेव दशरथस्य तद, प्रत्य। पुत्र दाशरथी तत्र भिन्नानि सूत्राणि सन्ति तद्ध तद्धित् प्रत्ययस्य कृते कुन्ती कुन्त्याः पुत्रः कौन्तेयः एवं कर्ण कर्णकस्य कर्ण पुत्रः राधा राधेय भिन्नानि सूत्राणि सन्ति हा अतः तत् वसुदेव। वसुदेवस्य पुत्रः वासुदेवः वासुदेवः कृष्ण एवम् अस्तु बलरामः दुर्योधनः गुरुः शिष्यः बलरामस्य शिष्यः दुर्योधनः दुर्योधनस्य गुरुः बलरामः Hmm. योग्यम् हरिः लक्ष्मी hmm. पतिः पत्नी hmm. हर, हरस्य वा <laughs> हरे हरेः हरे हरे हरे हा हरिः हरेः षष्ठि हरे हरेः हरे पत्नी लक्ष्मीः Uh, लक्ष्मेः वा लक्ष्मेः पति लक्ष्म्याः नद्याः इति अस्ति खलु नद्याः तथैव लक्ष्म्या लक्ष्म्याः हा लक्ष्म्याः पति हरिः लक्ष्मी लक्ष्म्याः पति तत्र पश्यन्तु माधव इति नाम् एक अस्ति हरेः नाम इति माधव हा तत् मा इत्युक्ते लक्ष्मी धव इत्युक्ते पति मा, मायाः पति लक्ष्म्याः पति मायाः माधव माधव इत्युक्ते हरि इति एक परन्तु अत्र लक्ष्म्याः पति हरिः वा लक्ष्म्याः पतिः हरिहरि ओके अस्तु भगिनि जमदग्निः रेणुका Uh, जमदग्नेः सत्यं जमदग्नेः जमदग्नेः पत्नी रेणुका रेणुक्या रेणुक्याः पतिः मालायाः रेणुकायाः वदतु रेणुकाया याः पति पतिः जम रेणुका जमदग्नि एतयोः पुत्रः कः भवती जानाति वा जमदग्नि रेणुका परशुराशुरा परशुराम तथैव परशुराम अनन्तरं किम् अभवत् परशुरामेण पितुः आज्ञया मातुः वदातायाः मातायाः मातुः मातुः मातुः मातु शिरंतवान् कृतवान् अनन्तरं तत्र छेदनं कृत कृतवान् छेदनं सत्यं तद् जमलग्नेः एतयोः षष्ठि विभक्ति सर्वत्र पुत एतयोः पुत्रः परशुरामः परशुरामः जमनग्नेः आज्ञया रेणुकामातुः वधं कृतवान् मातुः इति अस्तु वीणाभगिनी अग्रिमी अभिमन्युः अभिमन्युः सुभद्रा अभिमन्युः अभिमन्योः माता सुभद्रा सुभद्रायाः सुभद्रायाः अभिमन्युः हा सुभद्रा अत्र अभिमन्योः इतोपि एकः एकं नाम सौभद्र सौभद्र अत्रापि तथ्यं सुभद्रायाः पुत्र सौभद्र इति तत्सर्वं mm -hmm. तद्धिप्रत्यये अन्तर्भूतः अधुना भगिनि सुभद्रायाः बन्धुः कः कृष्णः द्वितीयः बन्धुः बलराम् बलराम आं बलराम तत्रस्ति अस्ति खलु सुभद्रा बलराम कृष्णस्य मूर् मूर्तय तत्र कुत्र अस्ति पुरि जगत् आल् ब्रदर्स्टर्स् टु ब्रदर्स् एण्ड् वन्स्टर् अस्तु हा विना भगिनी धन्यवादाः धन्यवादः भगिनि अधुना अम्बिकापति महोदय भवान् पठति आवरणे विद्यमानस्य शब्दस्य तथा आरभ्य आवरणे विद्यमानस्य बन्धस्य षष्टिविभक् षष्टिविभक्तिरूपेण रिक्तस्थानानि पूरयत उदाहरणं <laughs> भारतस्य राजधानी देहली भारतम् समानेव राजा धृतराष्ट्रः हस्तिनापुरं हस्तनापुरस्य राजा धृतराष्ट्रः रवि रविपुत्रः कर्णः रवयोः पुत्रः रविः हरि रवि रविः सर्वैकारमदग्नेः इकारल्लिङ्ग हरेः जमदग्नेः पुत्रः कर्णः ध्वनि मुद्रः वेणु उकारान्द् उकारान्द् एकवचनम् उकारान्द् एकवचनं किं वेणोः ध्वनिः मधुरः नः प्रशान्तं भवति मुनिः मुन्या मुनया मुनेः मुनेः मनः प्रशान्तं भवति छाया शीतला भवति लता लतायाः छाया शीतला भवति लतायाः लतायाः छाया शीतला भवति मालायाः लतायाः गीतायाः आकारान्त श्रीलिङ्गे अग्रिमे अग्रिमे गुरु गुरुगुरु गुरुः अर्जुनः प्रियः अर्जुनः गुरेः प्रियः अर्जुनः गुरो प्रियः गुरु कथं चलति भु उकारान्त पुल्लिङ्गे भानोः गुरोः एवं गुरोः प्रियः मनसस्तु परा परा बुद्धिः यो यो परतस्तु सः बुद्धिः बुद्धेः परतस् परतस्तु सः अत्र ah. अः गीतायांत्र दत्म तु परा बुद्धि युद्धे पर बुद्धे हे हे परतह तु सह, बुद्धे परतह, मन मन चशंध मनस मनस बुद्धिः मनसः परा ओके okay, बियाण्ड् परा इत्युक्ते बियाण्ड् अहेड इति वक्तुं शक्नुमः मनसः तु परा बुद्धिः यः बुद्धेः परतः तु सः इत्युक्ते परमात्मा बुद्धेः परतः बियाण्ड् इमेजिनेशन् इन्द्रियगोचरः नास्ति इन्द्रियाणां कृते अगोचरः द्रष्टुं न शक्नुमः इति सः बुद्धे परतः अग्रिमे अग्रिमे स्नेहः आयुलः माता माता आकारान्तं तेः तेः स्नेहः आयु अयुलः अतुलः मातुः ऋकारान्तशब्दस्य कृते पितुः मातुः मातुः स्नेहः अतुलः मातुः स्नेहः अतुलः मूल्यम् अधिकं वस्तु अस्तु रुकारान्त Oh, the... वस्तु उकारान्तनपुस्तकलिङ्गी अस्ति मूलतः तु वस्तुम् इति प्रातिपदिकमस्ति षष्ठीरूपं भवति वस्तुनः वस्तुनः मूल्यम् अधिकम् इति भवति वस्तुनः one... मूल्यम् yeah. अधिकम् yeah, एवमस्ति अभ्यासेन एव सर्वं गुरुः अस्ति चेत् उकारान्तस्त्रीलिङ्गे उकारान्तपुल्लिङ्गे ऋकारान्तस्त्रीलिङ्गे ऋकारान्तपुल्लिङ्गे एतादृशी रूपाणि सन्ति अस्तु अम्बिकापतिमहोदय धन्यवादः धन्यवादः अधुना एतत् अवस्तु महोदय भवान् करोति वा हरणं भाक्यानि रचयत उदाहरणं वसुदेवस् वस वस। अत्र किमस्ति तत्र तारका इति दृश्यते तत्र मध्ये श्रीकृष्णस्य प्रतिमा अनन्तरम् तत्र लिखितं दृश्यते पुत्रः सारथिः राजा पतिः पुत्रः इतोपि तत्र स्वामी मित्रम् एतत् सर्वम् अस्ति अधुना वाक्यरचना कथं करणीयं तत् उदाहरणार्थं दत्तमस्ति उदाहरणं पठतु महोदय उदाहरणं वसुदेवस्य पुत्रः कृष्णः देवकी इति आरम्भम् आरम्भं कृत्वा वाक्यं कथं भवेत् षष्टिविभक्ति षष्टिविभक्ति अत्र अपेक्षिता देवकीश तत् कथं भवेत् नदी कथं भवति नदी देवक्याः पुत्रः उत्तमम् उत्तमं महोदय देवक्याः पुत्रः कृष्णः अनन्तरम् अग्रिमे रुक्मिक्मिण्याः Ruk, उत्तमं रुक्मिण्याः पतिः कृष्णः उत्तमम् अग्रिमे मधुरायाः उत्तमं मथुरायाः राजा कृष्णः अग्रिमे अर्जुनस्य सारथिः कृष्णः योग्यम् वसुदेवस्य पुत्रः कृष्णः hmm. बालरामस्य hmm. सहोदरः कृष्णः एतत् hmm. सर्वं कृष्णस्य विषये सः एव कृष्णः सः एव वसुदेवपुत्रः अर्जुनस्य सारथि मथुरायाः राजा रुक्मिण्याः पतिः देवक्याः पुत्रः अग्रिमे इतोपि एकमस्ति मित्र कृष्णः अन्तिमम् मीरायाः स्वामी मीरायाः समीशः एव नियन्ता सः एव योगेश्वरः सः एव सारथी सः एव उद्धारकः सः एव तारणहर्ता सः एव भर्ता सर्वं सर्वं सर्वं कृष्णः एव इति अस्ति उत्तमं महोदय उत्तमं एकवारं कुर्मः अस्माकं समीपे अधुना एकं श्लोकं पश्यामः अनन्तरं कथां वयम् आरम्भं कुर्मः एतत् अग्रिमे वर्गे कुर्मः उदाहरणानि यथोदाहरणवाक्यानि रचयित्वा एकं अग्रिमे वर्गे हिमालयतः आरम्भं वयं कुर्मः अधुना श्लोकं प्रति गच्छामः श्लोकः आगतः अत्र भारतमहोदयः भवान् पठति वा प्रजाती यदा, यदा कामान सर्वान्थ मनो आत्मन्यत्मनाथ अस्जा अच्छा कानोगता अन्तिमवर्ण तत्र हलन्त इति रूपेण आगच्छति अतः उच्चारणसमये कामान, सर्वान् मनोगतान् एव प्रजःति यदा कामान् सर्वान् पार्थमनोगतान् आत्मन्ये वात्मना तुष्टः आत्मन्ये वात्मना इत्युक्ते तत्र, तत्र आत्मनी एव आत्मना तत किञ्चित् तस्मिन् विषये वक्तव्यमस्ति तत् वदामि अनन्तरम् आत्मनि एव आत्मना तुष्टः स्थितप्रज्ञ स्थितप्रज्ञः तदा उच्यते यदा तदा जायिनिङ्ग् वर्स् यदा पार्थ हे पार्थ भारतमहोदय पार्थ इत्युक्ते कः अर्जुन अर्जुन हे पार्थ, हे पृथ् पुत्र पार्थ, पाथ पृथ्वे कुथाया पाथ हा यदा यदा सर्वान्मा मनोगता प्रजहा किम प्रजहापसर्ग प्र प्रिफिस्ट जहाती थी, हा त्यागे त्यजति इति एकः तत्र धातुः अस्ति युहोत्यादिगणे अस्ति तस्य लट् लकारवर्तमानकालरूपं भवति भवति जहाति यदा सर्वान् कामान् मनोगतान् प्रजहाति तदा आत्मनि एव आत्मना तुष्टः सितप्रज्ञः उच्यते तदा किमुच्यते आत्मनि एव आत्मना तुष्टः आत्मनि एव आत्मदा तुष्टः यदा सर्वान् कामान मनोगतान् प्रजाति त्यजति आत्मना आत्म आत्मनः एव आत्मनि तुष्टः आत्मनि इति सप्तमी आत्मना इति तृतीय आत्मना आत्मनि तुष्टः आत्मना आत्मने तुष्टः तुष्टः तुष्टः इत्युक्ते सन्तोषः तुष्टः समाधानवृत्तिः तत्र तुष्टः तदा स्थितप्रज्ञः इति उच्यते इत्युक्ते तत्र श्रीकृष्णः वदति यदा सर्वान् कामान् मनोगतान् इत्युक्ते अस्माकं मनसि मनसि सर्वान् कामान् सर्वाः कामा वा मनोगताः ये सन्ति तान् सर्वान् यदा त्यजति तदा नि आत्मनि एव आत्मना तुष्ट इत्युक्ते निरपेक्षभावनया अन्यस्मिन् पश्यन्तु अन्यस्मिन् विषये अस्माकं तत्र वृत्तिः कीदृशी भवति परमेश्वरी भगवती एव मम श्रद्धा अस्व अनासक्स्पृह डिटेच केवल अनासक् भगवती केव आसक् अशु अनासक् डिटैच हाँ यदा भवती तदा तत्म तृतीया आत्म सह तुष्ट सर्वमनोगथान् वा कामान् कामान् इत्युक्ते इच्छा वा तृष्णा वा सर्वं त्यजति तदा सः स्थितप्रज्ञः इति उच्यते स्थितप्रज्ञा इत्युक्ते सम्थिङ्ग् वित् स्थित इत्युक्ते स्टेरि प्रज्ञा इत्युक्ते विज्डम् वित् स्टेरि विज्डम् इति स्थितप्रज्ञः स्टेरि नाट् गेटिङ्ग् डिस्ट्राक्टेड् बै एनी सार्ट् आफ़् प्रलोभनानि वा वटेवर् तत् सो वन् रिमेन् सेटिस्फैड् इन् वन् सेल्फ् आत्मनि एव आत्मना तुष्टः रिमेनिङ्ग् सेटिस्फैड् इन् वन् सेल्फ् ओन्ली देट् इस् दि यु केन् से सिटप्रज्ञ इत्युक्ते हैयस्ट् स्टेट् आफ् मैण्ड् इति हैयस्ट् स्टेट् आफ़् विज्डम् स्टेडि विज्डम् इति तत्र आशा तृष्णा वा लोभः वा दम्भः वा मत्सरः वा सर्वेषां गुणानां त्यजनं भवति त्यागं करणीयम् तदा आत्मनि एव सः आत्मनि एव आत्मना इत्युक्ते मनसा तृतीया आत्मनि एव मनसा सः तुष्टः तस्य कृते स्थितप्रज्ञ इति संज्ञा सर्वेषाम् मनोगतानां प्रजहाति तेन किं भवति परमात्मनः प्रसादं प्राप्नोति प्र, परमात्मनः प्रसादेन आत्मानं सन्तुष्टं मन्यते तदा सः स्थितप्रज्ञः इति उच्यते अत्र सर्वान् कामान् जहाति कथं भवति इति तस्य विषये एका कथा अस्ति कथा वयम् अद्य दिने पठामः स्पष्टं वा स्पष्टमस्ति वा इति एवम् अस्माकं कथा कथा राधा भगिनी आरम्भं करोति वा कथायाः सम्राट् स्यात् हौ डस् वन्द्राट् कीदृशः स्यात् इत्युक्ते तत्र भगिनी भवेत् इति सम्राट् इत्युक्ते इति महाराजा. महाराजा. तत्र मूलतः तत्र सम्राज सम्यक राजते इति समराज तस्य सम्राट इति रूपं कदाचित् कश्चित् सम्राट् रथे उपविश्य राजमार्गेण गच्छन् आसीत् ततः कश्चित् अग्रे सामान्य, वेशधारी, कश्चन विरागी गच्छन् आसीत् साम्राजी गच्छति सति तस्य पुरतः कस्यचित् सामानस् सामान्यस्य गमनं कथम् युज्येत् hmm. इति चिन्तयन् कश्चन राजभट्टः धावन् तस्य विरागिणः समीपं गत्वा सदर्पम् अवदत् अये रे अपेहि मार्गात् mm. सम्राट् एतेन मार्ग मार्गेण आगच्छन् अस्ति इत्येतत् किं त्वया न ज्ञातम् Hmm. अपसर अपसर इति अधुना hmm. किं भवती किञ्चित् विवरणं करोति वा आम् एक सम्राट राज रथेन राजमार्गेण गच्छन् आसीत् hmm. तत्समये एक सामान्य वेशधारी विरागी अत्र hmm. तत् तत, गच्छन् अपि Uh, uh, राजभट्ट ते uh, दृष्ट्वा uh, साम्राज्य गच्छत uh, गच्छ uh, मार्गे uh, कस्यचित् सामान्यगमनमस्ति इति uh, चिन्तितवान् uh, तत्र धा, धावितवान् तस्य समीपे uh, uh, uh, अवदत् रे uh, मार्गे साम्राटा आगच्छन् भवान् न ज्ञातं वा मीनिङ्ग् गो अवे गेट् अवे फ्रोम् दे रैट् अपसरति सत्यं सत्यम् उत्तमं पश्यन्तु अत्र भगिनी भवती स्वशब्देः अत्र संस्कृतभाषायाम् एव विवरणं दत्तवती खलो? आम एवं खलु पश्यन्तु इदानीम् उत्तममस्ति भगिनि सम्राट रथे आसीत् राजमार्गेण गच्छन् आसीत् गच्छन् इत्युक्ते तत्र शत्रु प्रत्ययान्त द I mean, ता किङ्ग् इस् पासिङ्ग् गोयिङ्गान् ऐ मीन् दस् गोयिङ्गान् ततः किञ्चित् अग्रे सामान्यवेषे कश्चन विरागी विरागी तीग राग यस्गे त्र भावना वो श्लोक दृष्ट तर ईर्ष्या क्रोध वोभ वोह वास्ती विगता हाँ विगता गुणा यस्ट विरागी तह अस अन राजभट इत्युक्ते सैनिकाः भटः इत्युक्ते सल् ऐ मीन् I समण्ट् mean, वा सोल्जर् वा इति राजभटः तत्र धावन विरागिणः समीपं गत्वा सदर्पं दर्पेण सह सदर्पण् सदर्पं दर्पेण सह ससुखं सुखेन सदर्पम् अवदत् किञ्चित् तत्र अहंकार अहंकारेण सह अवदत् अए रे अए रे अपेह अपे अपे अपे अप य उपसर्ग त धा अस्थ इन गौ अपे अप अप इि त्रज्ञाथमस्त लोट अथे अप इति अस्ति hmm. अपेहि अपसर अपेहि मार्गाद् मध्यमपुरुष एकवचनम् hmm. अपगच्छतु इति अपसर इति hmm. सम्राट् एतेन मार्गेण आगच्छन् अस्ति किं त्वया न ज्ञातं भवान् न जानाति वा सम्राट् आगच्छति वा अपसर अपसर इति सह उक्तवान् hmm. राजभट hmm. तावत् धन्यवादः अग्रिमे धन्यवाद अग्रिमे अगस्ट् महोदय भवान् पठति वा सः विरागी तत्र आरभ्य अस्तु विरागी गमनं स्था गायित्वा परिवृत्य सम्राज्यं सकृत् दृष्ट्वा मन्दहासं प्रकट्य प्रकट्य इष्टन्तभावेन यथा पूर्वम् अग्रे अगच्छत् अत्र एकम, एकम वाक्यं स्वीकृत्य वदा वदामः महोदय सः विरागी गमनं स्थगयित्वा स्थगयित्वा इत्युक्ते अस्तु चिन्ता मास्तु स्थगयित्वा इत्युक्ते हि स्टाप् देर् स्थगनं हि स्टाप्ट् गमनं स्थगयित्वा सः विरागी गमनं गमनम् इत्युक्ते गमधातोः गमनं स्थगयित्वा परिवृत्य सम्राज्यं सकृत् दृष्ट्वा परिवृत्य इत्युक्ते इजस् टर्ण्ड् ओवर् सम्राट् अत्र सम्राज्यं सम्राजम् इति द्वितीया विभक्ति सम्राट् इति प्रथमा विभक्ति एकवचन् सम्राजं सकृत् दृष्ट्वा हि श्रुटिं मन्दहासं प्रकट्य मन्दहासं जस्ट् जेण्ट्लि हि स्मैल् शान्तभावेन यथा पूर्वम् अग्रे अगच्छत् अत्र पश्यन्तु प्रथमे परिच्छेदे किम् अभवत् महोदय तत्र राजभटः आगतवान् सः विरागे साधुपुरुषं तत् उक्तवान् अपसर अपसर इति उक्तवान् परन्तु सः विरागे एकवारं सम्राट् सम्राजं प्रति दृष्ट्वा मन्दहासं झण्टल् शान्तभावेन एव यथा अग्रे अगच्छत् यथा पूर्वे गच्छन् आसीत् तथैव सः अग्रे अगच्छत् भटः राजभटः तत्र वदन्ति राजभटः वदति अपसर अपसर परन्तु विरागी किमपि तत्र किमपि न दर्शयित्वा सः अग्रे अगच्छत् इति अग्रिमं वाक्यं वदतु पठतु महोदय भटानां भटानां तर्जनम् अपि तस्य व्यापहारे परिवर्तनं कर्तुं न अशक्नोत् इत्युक्ते भटानां तर्जनम् अपसर अपसर किमेतत्त्वया न ज्ञातं वा इति एतत् सर्वं तस्य व्यवहारे व्यवहारे इत्युक्ते वर्तने इन् हिज़् बिहेवियर् परिवर्तनं चेंज कर्तुं न अशक्नोत् इत्युक्ते अशक्नोत् इति भूतकालरूपम् नो चेञ्ज् इन् no साधुपुरुषस्य वर्तनं तथैव सः मार्गेण कालक्रमण तत्व अग्रिमे गातनम शौटीरोपसर किया न्तर्जनम शौटिंग डि नाट एफेक्टिट ते व्यवहारे पिवर्तन कर्म न अशक्नोत् लङ्लकारे भूतकाले उपसर्गः आगच्छति न अशक्नोति इति भूतकालरूपम् एवं सर्वम् अग्रिमे पठतु भटाः भटाः सम्राजः समीपं गत्वा सर्वम् अवदत् अवदम् एतस्य श्रवणात् सम्राजः इदानीं two... किम् अभवत् भटानां तर्जनं तस्य उपरि किमपि परिवर्तनं न दृश्यते विरागी तथैव शान्तमनसा एव शान्तभावेन एव यथा तत्र अग्रे मार्गाक्रमणं गच्छति करोति स्म इदानीं भटाः तत्र सम्राजः समीपे अत्र पश्यन्तु सम्राजः इति सम्राट् शब्दस्य षष्ठी विभक्ति गत्वा सर्वं अवदन तत्र एक तत्र विरागी साम्राज सीप गर्व अवद्रीरागिपुर तगे आगतवा आसत वे तत् अपसर न कोपर्तनम दृश्य है व्यवहारे तथा अग्रे अगछत एक अवदं भटा सैनिक ृत्या सेवका वटेवर सर्व अवद्राज सम्राज एक श्रवण साम्राज क्रोध प्रवृद क्रोध प्रवृद्ध तत्व अब एक सम्राट शुतवा आसी शुवा सम्राज क्रोध प्रवृद्धि अग्रिमे दूरात् एवं विरागिणः दर्शनात् तु तस्य नेत्रे आरते दूरात् एव हि वास् वाचिङ्ग् फ्राम् द डिस्टेन्स् दूरात् एव विरागिणः विरागी इति प्रथमा विरागिणः इति षष्ठी विरागि विरागिन् इति प्रातिपदिकम् विरागिन विरागि विरागिणः तस्य दर्शनात् तु सम्राटः इत्युक्ते सम्राजः नृपस्य नेत्रे आरक्ते जाते नेत्रे नेत्रे नेत्रद्वयं वनं वने वनानि नेत्रं नेत्रे नेत्रानी आरप् क्ते क्रोधः तत्र क्रोधभावनया किम् अभवत् रेड्निङ्ग् आफ् द ऐज् आरक्त आरक्ते क्रोधः प्रवृद्धः क्रोधभावनया अन्कण्ट्रोल्ड् एङ्गर् अन्कण्ट्रोल् एङ्गर् अभवत् तदा किम् अभवत् नेत्रे एव आरक्ते जाते अग्रिमे पठतु महोदय तावता एव अधुना स्थितिः का विरागी विरागीमनुष्यः तत्र एव मार्गे एव गच्छति भटाः तत्र उक्तवन्तः अपसर अपसर परन्तु सः ततः कुत्रापि न गच्छति तत्रैव मार्गक्रमणा प्रचलति अधुना किमभवत् ृत्ता भट सम्राज्य समीपं गवदनासुव आसरागीमनुष्य तथा तवता रथ तर विरागिणी विभक्ति समीपम आगछत बै दृप से रथ तगछत एवम् इदानीं पर्यन्तं स्पष्टमस्ति वा सर्वेषां कृते स्पष्टमस्ति अधुना धन्यवादः अवस्तु महोदय वीणा भगिनी पठति वा रथस् रथस्थः एव साम्र सम्राट् क्रोधेन अगर् अगर्जत् अये hmm. अविवेकिन् hmm. कस्त्वम् इति पर्यन्तं पठतु अनन्तरं पश्यामः अस्तु विरागी गमनं स्थगयित्वा सम्राजः अभिमुखम् स्थित्वा अहमस्मि सम्राट् एतस्य श्रवणात् राज्ञः क्रोधप्रवृद्धः सः अवदत् जीर्णवस्त्रधारी नग्नपादः पादसञ्चारी सम्राट् कथं वा भवितुम् अर्हेत् इति ah. <laughs> अधुना भवती विवरणं करोति वा किञ्चित् प्रयत्नं करिष्यामि भगिनि निश्चयेन वदतु साम्राट् क्रोधेन अगर्जत भोः अविवेकी कस्त्वं कः त्वम् इत्युक्ते कः त्वम् विरागी गमनं स्थगयि विरागिः तत्र तिष्ठ तिष्ठवा अभिमुखं कृत्वा मन्दहासेन अवदत् अहं सम्रा अहमस्मि सम्राट् इत्युक्तम् इति उक्तवान् हा एतत् श्रुत्वा राजः अतिक्रोधः प्रवृद्धः सः अवदत् जीर्णवस्त्रधारी hmm. इत्युक्ते नाट् रिच् क्लोथ्स् हा जीर्णानि वस्त्राणि धारयति जीर्णी जीर्णानि ओल्ड् इति जीर्णानि वस्त्राणि जीर्णवस्त्रधाराणि नग्नपादः इत्युक्ते अस्तु भगिनि पादसञ्चारी इत्युक्ते न अश्वः न रथः पदेन पादेन, पादेन सन् पादेन सञ्चारी पादसञ्चारी <laughs> एषां गुणस्य मा, मानवः कथं कथं भवितुम् अर्हेत् कथं राजा भवितुम् अर्हेत् इति उक्तवान् इति उक्तवान् सः उक्तवान् अधुना अत्र पादेन इत्युक्ते तत्र पादाभ्याम् इति भवति भगिनी किमर्थं पादद्वयमस्ति खलु पादाभ्यां सञ्चारणे सञ्चारं करोति इति भवितुमर्हति पश्यन्तु रथस्थः अत्र रथस्थः परदेशस्थः ये परदेशे निवासं करोति परदेशस्थः देशस्थः इति देशे निवासं करोति तत् स्थः रथस्थः रथम् उपविश्य तत्र सम्राट् क्रोधेन गर्जनां कृतवान् किम् अये अवेदिके अविवेकिन् अविवेकि मनुष्यः विवेकहीनः विवेकः विस्डम् अबिलिटि टु डिस्टिङ्ग्विश् बिट्वीन् रैट् अण्ड् राङ्ग् नास्ति तत्र एवमस्ति खलु अहं मन्ये अथर्वशीर्षा त्वमेव प्रत्यक्षं ब्रह्मासि त्वमेव प्रत्यक्षम् एवं सर्वमस्ति तत् इति मध्यमपुरुष मध्यमपुरुष त्वं कः कुआ इति पृच्छति विरागी गानं स्थगयित्वा सम्राजः अत्रापि सम्राजः षष्ठविभक्ति अभिमुखं सम्राजः पुरतः अभिमुखं पुरतः स्थित्वा स मन्दहासं मन्दहासेन सह स मन्दहासम् अवदत् अहमस्मि सम्राट् एतस्य श्रवणात् राज्ञः क्रोधः प्रवृद्धः राज्ञः पुनः एकवारं षष्टिविभक्ति राजन् शब्दस्य षष्ठी एतस्य षष्ठी विभक्ति राज्ञः क्रोधः प्रवृद्धः अग्रिवेशन् आफ़् द एङ्गर् सः अवदत् जीर्णवस्त्रधारी नग्न पाद पादसंचारी सम्राट कथम अर्ेक् राज मनसि का कल्पना सम्राट भवोत्तम वस्त्र त्र नग्न पाद न भवेत भवस पाद पाद्यां सचारण न भवस्थ भवे भाईस कथं वा भवितुमर्हेत् इति सह पृच्छति अधुना अग्रिमे धन्यवादः विना भगिनी अग्रे धन्यवादः अधुना तत् जयन्ति भगिनी पठति वा एवं तर्हि तर्हि एवं तर्हि एवं तर्हि महार्गवस् महा महार्गवस्त्राधारी स्वर्ण स्वर्णरथारूढः संस्कारहीनः अहङ्कारी किं साम्राट् भवितुम् अर्हेत् इति साम्राट् कदा भवितुम् अर्हति एकः मनुष्यः महा महार्घवस्त्रधारी महाविशेषवस्त्रधारी विशेषवस् वस्त्रं यः धरितवान् अस्ति सः स्वर्णरते वर्णे आरोहणं करोति सः संस्का संस्कारहीनः किमपि सु संस्कारं नास्ति सः अहङ्कारी अहङ्कारि अहम् इति मननं करोति सः अहङ्कारी किं साम्राट् भवितुम् अर्हति सः hmm. साम्राट् भवितुम् अर्ह अर्हता किमपि नास्ति तस्य कृते hmm. साम्राट् तु सः एव यत्र ये चित्तविकाररहितः अहङ्कारहीनः hmm. चित जितक्रोधः सर्वेषु श्रद्धावान् hmm. संय संयम संयमविवेकादि पूर्णः अनुशासनयुक्तः hmm. स्यात् एकः भवति mm. साम्राट् कः इत्युक्ते mm. चित्तविकाररहितः यस्य चित्ते किमपि विहारम् विकारः परिवर्धनम् नास्ति भेदः नास्ति mm. सः अहङ्कारहीनः mm. अहङ्काररहितः सा, यः जितक्रोधः क्रोधस्य mm. जि, जि, जितम् कः करोति सः सर्वेषु सर्वेषु mm. श्रद्धावान् श्रद्ध श्रद्धपूर्वं सर्व श्रद्धयुक्तवान् सः mm. संस uh, संय सम्य, uh, संयमविवेकादि uh, सर्वेषां विषये विवेकबुद्धिपूर्णकः यः mm. भवति सः स्वयं uh, किमपि uh, स्वयं सर्वम् अनुशासनं करोति सः एव साम्राट् अर्हति इति यः अनुशासन अनुचारना, पूर, अनुशा अनुशासनयुक्त इत्युक्ते भगिनी किम् अनुचारति अनुचारणं करोति पूर्वः पूर्वः किम् उक्त उक्तः सः अनुपालनं यः करोति सः एव अनुशा अनुशासनयुक्तः अत्र पश्य तत्तु एकः अर्थः परन्तु अनुशासन स्वस्य मनसः अनुशासनम् तत्तु प्रामुख्यतया प्राधान्येन तदेव भवेत् खलु मन मनः मन, मनसः अनुशासनं यदा भवेत् तदा सर्वम् अस्माकं कृते सर्वं सुलभमेव भवति भव सम्राट् इति परन्तु मनसः अनुशासनं तत्र नास्ति क्रोधस्य उपरि तत्र अनुशासनमस्ति वा न इति सः वदति अग्रिमे यः आत्मनः एव शासनं कर्तुं न प्रभ प्रभवेत् सः देशस्य शासनं कथं कर्तुं शक्नुयात् यः स्वस्य मन शासनं न कर्तुं शक्यते सः देशस्य शासनं कथं कर, कर्तुं शक्यते इति काम् गाम्भीर्येण अवदत् वीरा विरागी इत इति आ, आ, आ, आ, आ, वि, विरागी यह राहं त्यक्तवान् अस्ति सः विरागी उक्तवान् गाम्भीर्येण गम्भीरतया उक्तवान् किमर्थम् इत्युक्ते सह विरागी अस्ति खलु तदर्थं गम्भीरेण उक्तवान् अस्ति विगतः विगतः विगताः आशार्षा तृष्णा यस्मात् सह सः विरागी उत्तमम् उत्तमम् अग्रिमे अन्तिमे तत् अम्बिकापतिमहोदय अन्तिमं पठति एतस्य श्रवणात् एतस्य श्रवणात् राजा क्षणकालं स्तब्धः ततः सः <laughs> रथात् अवतीर्य तं विरागि विरागिणाम् <laughs> उपसर् सर्प्य <तुस laughs> सर्प्य पात्रौ प्रणम्य क्षमां याचितवान् किमस्ति अत्र राजा चिन्तितवान् अत्र बाह्यरूपम् एव न आचरति अत्र क्षम्यतात् रथात् अवतीर्य इत्युक्ते गोड्डौन् उपसर्प्य इत्युक्ते समीपे गत्वा उपसर्प्य उप इति समीपम् उपसर्प्य पादौ प्रणम्य किमर्थं तत्र पादौ इति अस्ति पादद्वयं देवः देवौ पादौ प्रणम्य नत इति अभवत् क्षमा एतत् सर्वम् इस् वाज़् एव्रिथिङ्ग् ऐ ओपनर् फार् द कि रथात् अवतीर्य तं विरागिणम् उपसर्प्य पादौ प्रणम्य क्षमाम् याचितवान् तत् सः अवग अवगतवान् किमर्थम् तत्र यस्य सी त्र मनसम ना तेज शासन कथम कर्म शक्नो आत्मन एव शासन कर्म न प्रभव हाँ जितक्रोध नास्ती तत्क्रोधेन सह को अन विकार विकारयुक्त त अहंकारी अहं करोमि इति वृथाभिमान एवम् एतत् सर्वं गुणैः सह यः वर्तनं करोति तत् कथं सम्राट् अहं सम्राट् किमर्थम् अहं सम्राट् अस्ति इति विरागी वदति किमर्थम् मम चित्तः विकाररहितः अस्ति मम <laughs> मनसि अहङ्कारभावना नास्ति एव मया क्रोधं जितम् अस्ति अनन्तरम् अहं श्रद्धायुक्त अन्तःकरणेन व्यवहारं करोति मम व्यवहारः संयमपूर्णः अस्ति विवेकदृष्ट्या विवेकपूर्णः अस्ति मम मनः मन मम मन आत्मा आत्मनः अनुशासनेन एव वर्तनं करोति अतः मम अहं शासनम् मम आत्मनः शासनयुक्त अस्ति तत् भवन्तः भवान् तु तत् एव एतत् सर्वं भवतः समीपे नास्ति कथं भवान् सम्राट् इति वदति स्वस्य कृते एतत् गाम्भीर्येण अवदत् विरागी गाम्भीरेण गम्भीरतया सखोलतया इति सः उक्तवान् राजा क्षणकालं स्तम्धः स्ति तत्र स्तब्धः तत्र स्तब्धता किं दृश्यते अवगमनम् अभवे अभवत् इति अनन्तरं सः प्रणमति विरागिणम् प्रणमति इति क्षमां याचितवान् इति दर्श अस्तु अत्र पश्यन्तु एषा कथा किञ्चित् तत्र काठिन्यपूर्णा अस्ति परन्तु मम मया तत् स्वीकृता किमर्थमिति तत्र षष्ठी विभक्त्यन्त्यपदानि सन्ति अस्माकं श्लोकः यदस्ति तदपि एवं सर्वं वदति खलु प्रजहाति यदा कामान् सर्वान् पार्थमनोवताम् आत्मन्येवात्मनः तुष्टः स्थितप्रज्ञ स तदोच्यते स्थितप्रज्ञ ति, तदोच्यते इति तथैव एवं सर्वमस्ति स्थितप्रज्ञा आत्मनी आत्मना तुष्टः इति यस्य मनः मन्ह, यस्य मनसि तत्र संस्काराः सन्ति अह मनसि संस्काराः सन्ति अहंकार नास्ति चित्ते विकारा विकाराः नास्ति सः एव समयात् तथैव मन्का राजा इति वक्तुं शक्नुमः हिन्दीभाषायाम् एतत् सर्वमस्ति एतत् किञ्चित् तत्र काठिन्यं दृश्यते परन्तु भवन्तः सर्वे उत्तमरीत्या अवगमनं कृतवन्तः इति सन्तोषस्य विषयः उत्तमप्रकारेण विवरणमपि भवन्तः सर्वे कृतवन्तः उत्तममस्ति प्रश्नाः सन्ति वा बेनि एतस्य कथा श्रीमद्भागवतपुराणे जडबर्दरघुगुणङ्का सम्भाषणम् एतयोः समानं भवति तादृशमेव समानतया भवति एवं वा किं वदनीयं प्रज्ञः अस्ति समान सेम् टु सेम् कथा तस्य खात्रापि सम्यक् भवति उत्तमम् उत्तमम् अधुना भारतमहोदय वाडीवो भगिनी तत् भारतमहोदय भवान् वदति वा कथायाः विषये तथैव वाडीवो भगिनी भवती वदति वा कथायाः विषये तत् वदतु निमिश निमेषद्वयमस्ति अस्माकं समीपे वा महोदय किञ्चित् उच्चैः वदति वा अहं श्रोतुं न शक्नोमि विरागीपुरुषः विरागीपुरुषः सम्राटः श्रद्धावान् संस्कारी विकारः विकार न भवति व्यवहार सः एव सम्राट् न तु अन्य कोऽपि अस्ति समीपे धनमस्ति वा उत्तमोत्तमवस्त्राभरणानि सन्ति सम्राट I mean no, uh... पदस्य योग्यता अस्ति इति न अस्तु एवम् uh, उत्तमम् उत्तमं भरतमहोदय धन्यवाद अन्य कोऽपि वदति वा mm -hmm. राधा भगिनी विना भगिनी वक्तुमिच्छति वा कथायाः विषये आर्यत्वम् आर्यत्वं, आर्यत्वं बाह्यरूपे एव नास्ति आर्यत्वम् पुनः एकवारं वदतु सः आर्यः खाह्यरूपे न सत्यं सत्यम् अन्तर्मनः यदस्ति तत् अन्तर्मनसि कः भावः तत् महत्त्वपूर्ण बाह्यरूपेण सम्राटपदस्य तत्र अर्हता इति नास्ति उत्तमं सत्यं बाह्यरूपेण नास्ति बाह्य अवडम्बर इति वदामः चेत् तत्र तस्य कापि अत्र महत्त्व इति महती तस्य महती नास्ति एव सत्यं सत्यं इतोपि कोऽपि वक्तुमिच्छति वा जयन्तीभगिनी okay. इत्य, वा राधाभगिनी यस्य मनसि किमपि भावः भेदभावः नास्ति सः एव स्थितप्रज्ञः hmm. अपि वक्तुं शक्यते सत्यं सत्यं भेदभावरहितः इति सत्यम् भेद अस्तु राधा भगिनी वीणा भगिनी आत्मनस्य शासनं करणीयं मुख्यम् एतत् विरागी राज्ञेय पठितवान् सत्यं सत्यं तत्र पाठयितवान् इति अस्तु वीणा भगिनी वदति वा किमपि हा भगिनि उत्तमराजा सः भवति सामान्यप्रजा प्रजानां प्रजायोः कष्टसंकष्ट अण्डर्स्टाण्ड्स् कथं कथं कथम् उक्तं भविष्यति भगिनि कामन् मेन् केन् बि अ गुड् किङ्ग् हा इत्युक्ते यदा पुरतः मनुष्यः सामान्यः मनुष्यः अस्ति परन्तु तस्य मनसि अहंकार वा वा भेद अहंकाररहित सर्वं गुणान, गुण गुणसहित सह अस्त पदस्य कृते न यथा अर्हरा भथ अंबिपतिमोदय उतवा तह्यूपेण सम्राटप पदस्य योजना मा भवेत् इति अस्तु भगिनि धन्यवादः धन्यवादः अस्तु वयम् अधुना समयः अपि जातः वयं, वयं समापयामः अम्बिकापतिमहोदय शान्तिमन्त्रं वदति वा सर्वे भवन्तु सुखिनः सर्वे शन्तुनिरामिनाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाद् भवेत् शान्ति शान्ति शान्ति हरिः ओम् तत्सद् श्रीगुरुभ्यो नमः हरिः ओम् धन्यवाद